अध द्विसप्ततितमः सर्गः अतिकायम् हतम् श्रुत्वा लक्ष्मणेन महात्मना उद्वेगमगमद्राजावचनम् चेदमब्रवीत् धूम्राक्षः परमामर्षी सर्वशस्त्रभृताम्बरः अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च एते महाबलावीराराक्षसा युद्धकाङ्क्षिणः जेतारः परसैन्यानाम् परैर्नित्या पराजिताः ससैन्यास्ते हता वीरा रामेणा क्लिष्टकर्मणा राक्षसा सुमहाकाया नाना शस्त्रविशारदाः अन्ये च बहवः शूरा महात्मानो निपातिताः प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः यन्न शक्यम् सुरैः सर्वैरसुरैर्वा महाबलैः मोक्तुम् तद्बन्धनम् घोरम् यक्षगन्धर्वपन्नगैः तन्न जाने शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ये योधा निर्गताः शूरा राक्षसा मम ते सर्वे निहता युद्धे वानरैः सुमहाबलैः तम् न युद्धे योध्य रामम् स लक्ष्मणम् नाशयेत्सबलम् वीरम् स सुग्रीवम् अहो सुबलवान् रामो महदस्त्रबलम् च यस्य विक्रममासाद्य राक्षसा निधनम् तम् मन्ये राघवम् वीरम् नारायणमनामयम् तद्भयाद्धिपुरी लङ्कापि हि तद्वारतोरण अप्रमत्तैश्च सर्वत्र गुल्मे रक्ष्या पुरी त्वयम् अशोकवनिका चैव यत्र सीताभिरक्ष्यते निष्क्रमो वा प्रवेशो वा ज्ञातव्यः सर्वदैवनः यत्र यत्र भवेद्गुल्मस्तत्र तत्र पुनः पुनः सर्वतश्चापि तिष्ठध्वम् स्वै स्वैः परिवृता बलैः द्रष्टव्यम् च पदम् तेषाम् वानराणाम् निशाचराः प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः नावज्ञा तत्र कर्तव्या वानरेषु कदाचना द्विषताम् बलमुद्युक्तमापतत् किम् स्थितम् यथा ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपश्य वचनम् सर्वमातिष्ठन् यथावत्तु महाबलाः तान् सर्वान् हि समादिश्य रावणो राक्षसाधिपः मन्युषल्यम् वहन् दीनः प्रविवेशः स्वमालयम् ततः सन्दीपितकोपवह्निर्निशाचराणामधिपो तदेव पुत्रव्यसनम् विचिन्तयन् मुहुर्मुहुश्चैव तदा विनिश्वसन् शे श्रीमद्राणे वाल्मीकए आदि का्युद्धकांडे द्विप्त सर्ग